ैकोनविंशः सर्गः स वा नरमहाराज शयानः शरपीडितः प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरम् प्रत्यपद्यत अश्मभिः परिभिन्नाङ्गः पादपैराहतो रामबाणेन चाक्रान्तो जीवितान्ते मुमोहसः तम् भार्या रामदत्तेन संयुगे हतम् प्लवकशार्दूलम् ताराशुश्राववालिनम् सा स पुत्रा प्रियम् श्रुत्वा बधम् भर्तुः त्रस्ताः प्रदुद्रुवुः सा यूथादेव परिभ्रष्टान् मृगान्निहत यूथपान् तानुवाच समासाद्य दुःखितान् दुःखिता सती रामवित्रासितान् सर्वाननुबद्धानिवेषुभिः वानराराजसिंहस्य यस्य यूयम् पुरःसराः तम् विहाय कस्माद्रवत दुर्गतः राज्यहेतो स चेद्भ्राता भ्रात्रा क्रूरेण पातितः रामेण प्रहितैर्दूरान्मार्गणैर्दूरपातिभिः कपिपत्न्याप च श्रुत्वा कपयः कामरूपिणः प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गना जीवपुत्रेणि वर्तस्व पुत्रम् रक्षस्व चाङ्गदम् अन्तको हत्वा नयति क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च तथा शिलाः वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः अभिभूतमिदम् सर्वं विद्रुतम् वालरं बलम् अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे रक्ष्यताम् नगरी शूरैरङ्गदश्चाभिषिच्यताम् पदस्थम् वालिनः पुत्रम् भजिष्यन्ति अथवा रुचितम् स्थानमिहते रुचिरानने आविशन्ति च दुर्गाणि क्षिप्रमद्यैव वानराः अभार्याः सह भार्याश्च सन्त्यत्र विप्रलब्धेभ्यस्तेभ्यो नः सुमहद्भयम् अल्पान्तरगतानाम् तु श्रुत्वा वचनमङ्गना पुत्रेण मम किम् कार्यम् राज्येनापि किमात्मना कपि महाभागे तस्मिन् भर्तरि नश्यति पादमूलम् गमिष्यामि तस्यैवाहम् महात्मनः योऽसौ रामप्रयुक्तेन शरेण विनिपातितः एवमुक्त्वा प्रदुद्रावरुदति शोकमूर्च्छिता शिरश्चोरश्च बाहुभ्याम् दुःखेन समभिघ्नति सा व्रजन्ती ददर्शाथ पतिम् निपतितम् भुवि हन्तारम् वानरेन्द्राणाम् समरेष्वनिवर्तिना क्षेप्तारम् पर्वतेन्द्राणाम् वज्राणामिव वासवम् महावातसमाविष्टम् महामेघौ घनिस्वनम् शक्रतुल्यपराक्रान्तम् वृष्ट्वेव परतम् घनम् नर्दन्तम् नर्दताम् शादूलनाषे मृगराजिवाहत अर्चित सर्वोक सपताकेपर्णेन चैत्यमथित यहावतिषंत ददर्शधनुर्जित राम् राज भर्तु तथाज तानतीसाद भर्ता हहतम रणे समीक्ष्य व्यथिता भूमौ सम्भ्रान्तानि पपातः सुप्तेव पुनरुत्थाय आर्यपुत्रेति वादिनी रुरोदसापतिम् दृष्ट्वा संवीतम् मृत्युदामभिः तामवेक्ष्यतु सुग्रीवः क्रोशन्तीम् कुररीमिव विषादमगमत्कष्टम् दृष्ट्वा चाङ्गदमागतम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये किष्किन्धाकाण्डे एकोनविंशः सर्गः